मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं सेवन् भाद्रपदशुक्लचतुर्थीव्रतवर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रुतं मया महाख्यानं त्वत्तो वेदविदाम्बर चतुर्भ्योरुभयोत्सारं माहात्म्येन समन्वितं तथापि वदमे मे ब्रह्मन् पृथ्व्रतसमुद्भवं चरित्रं विस्तरेणैव केन केन कृतं पुरा कीदृशी चाभवत्सिद्धिः केन प्राप्तो गजाननः श्रुत्वा व्रतस्य यामिनो तृप्तिमादराद मुद्गल उवाच एवं पृष्टो महायोगी वसिष्ठः परमार्थविद जगादत्तं प्रजानाद शृणु तत् सुखदं परं वसिष्ठ उवाच आदौ शम्भ्वादिभिश्चैदत्कृतं व्रतमनुत्तमम् कृष्णशुक्लचतुर्ध्यां यदुपोषणपरायणैः तदस्वायम्भुवाद्यैश्च कृतं सर्वार्धसिद्धिदं तदो मुनिगणैः सर्वैरन्यैर्वर्णस्तजन्धुभिः अधुनाहं पृथक्त्वेन कथयामि व्रतोद्भवम् माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण शृणुष्व तत् पुरा दौष्यन्ति को नाम भरधः सम्बभूवः तेजस्वी वीर शस्त्रास्त्रज्ञः प्रतापवान् जित्वा भूमण्डलं सर्वम् सार्वभौमो बभूवः सप्तद्वीपवदीं पृथ्वीमपालद्धर्मसंयुधः तद्देशे दैवयोगेन ह्यना वृष्टिः सुदारुणा बभूव सर्वलोकास्ते भयभेदा बभूवि चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः कण्वं मुनिवरं शान्तं व्ययौ शरणमादराद तं प्रणम्य महात्मानं पूजयामास भक्तिदः कृत्वा करपुडं तस्याग्रे स्थितो भरतो भवद तमुवाच महायोगी गाणपत्यप्रियः सदा कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम् कण्व उवाच राजन राजन्कुशलं ते महामते अस्ति अस्तिदेशादिभावेषु तिष्ठत्वं चास्सनोत्तमे कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः मुनिधत्ते विवेशार्षवासने स कृताञ्जलिः उवाच तं महात्मानं कण्वं भरदो राजनीधिज्ञो भक्तियुक्तो विशेषतः भरद उवाच त्व प्रसादेन योगीन्द्रकुशलं मे प्रवर्तते दैवयोगेन तदपि दुःखितोऽहं समागतः नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तमम् वर्णाश्रमाचारयुता जना सर्वे भवन्ति च तथापि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम् अनावृष्टिश्च सम्भूद प्रभो सर्वत्र दुःखदा चराचरं हयोद्विघ्नं बभूव रसहीनतः तदर्थं महा त्वा महायोगिनागतोऽहं विशेषतः त्वद्दर्शन च पुण्येन भवो भवद अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहं येन वृष्टिर्भवेत्पूर्णा तथा कुरुष्वमानद ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः कण्वश्रुत्वा च वृत्तान्तं दया युक्तः स्वभावतः कण्व उवाच शृणुराजन्महत्पापं तव राज्ये प्रवर्तितं तेनावृष्टिभवं दुःखं प्रादुर्भोदं न संशयः चतुःपदविहीनं ते राज्यं भवति निश्चितम् जनैः सर्वैः सुशीलैश्च पापं कोरं कृतं महद त्वं पापशीलभावेन वर्तस्य जनवत्सल धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम चतुर्थी सम्भवं तादव्रतं सर्वार्थसिद्धिदम् कार्ष्णं शौक्लम् सुविख्यादम् भ्रष्टम् राजेभवन् नृप चतुर्विधम् जगत्सर्वं स्थूलसूक्ष्मादिभेदः सङ्कष्टं यत्तदेव त्वम् जानीहि नृपनायक चतुर्विधं च सङ्कष्टं हरदिव्रतकारिणः सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिदामया चतुर्विधं ददा या ददादि सा शुक्लावरदा मदा सञ्जितं नास्ति चेद्राजन्व्रतकारिजनाय वै चतुर्धीजं समाहात्म्यं कथयामास विस्तराद कण्वस्तद्भरदायैव स्वशिष्याय विशेषतः व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः भरत उवाच स्वामिन्वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् एदादृश्यं व्रतं यस्य तं भजिष्यामि नित्यदा कण्व उवाच शृणुराजन् गणेशस्य माहात्म्यं सर्वदं परं क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता एकदाकं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा वायो मात्राशनो भूत्वा तपामिस्मा स्म तपो महद मदीयतपसा सर्वं व्याप्तमासीन्नराधिप तथापि योगमास्थाय संस्थितोऽहंविशेषदः ततः प्रजापतिः साक्षादाश्रमे मे समागतः क्रदुर्योगीन्द्रवन्द्यो यो गणपत्यो महायशाः तं प्रणम्यमहात्मानं पूजयित्वा पुरस्थितं कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः क्रदुरुवाच वत्सतिष्ठस्व मे दत्त आसने किं महामदे इच्छा दे, वद मां ताद करिष्यामि हितं तस्य तद्वचनं श्रुत्वा कर्षितोऽहं नराधिप आसने समुपावेश्यावदत्तम् विनयान्वितः कण्व उवाच तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रदम् तथापि शान्दियोगम् वदपूर्णम् दयानिधे क्रदुरुवाच सम्यक्पृष्टम् त्वया वत् स श्रेष्ठाच्छ्रेष्ठतमम् महद कथयामि महाभागब्रह्मणः संश्रुतं मया तपस्त्यक्त्वा पुरातादयोगमार्गपरायणः न शान्तिम् प्रलभे तत्र योगभूमिम् प्रसाधयन् ततोऽहम्पितरं गत्वा ब्रह्माणं सर्ववेदिनं वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्विदः स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो केन योगेन लभ्यं तत्प्रभावेत् कृपयान्वितः ब्रह्मोवाच योगशान्तिप्रदं ब्रह्मगणेशं विद्धिपुत्रक मनोवाणीमयं सर्वं त्यज योगस्य सेवया मनोवाणी विहीनं यदेव तत्तादृशं गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकस्मृतः मनोवाणीमयप्रोक्तो गकार्यो वेदवाददः मनोवाणीविहीनश्च नकार सर्वसम्मतः तयोस्वामी गणेशानु नाम्ना गणपतेर्यदा गकारस्य णकारस्य योगो वेदप्रमाणदः समाधिना लभ्यते यच्चित्तेन च महामदे गाक्षरगं ज्ञानं ज्ञातव्यं वेदवाददः चित्तेन यन्न नकारं विद्धिमानद ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि यदेव परं गुह्यं शान्दिदं कथितं मया तदर्थं गणराज्यं त्वं भजत्स्व भावसंयुदः एकाक्षरं महामन्त्रं गृहाण महामदे ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः यवमुक्त्वा महामन्त्रं ददौ मह्यं विधानदः तं प्रणम्यवनेताद गतोऽहं योगकारणाद क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परं चित्तं चिन्तामणौ पुत्रक्षिप्तं तद्रूपभावतः तदो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा गणेशध्यानसंयुक्तो भवं तद्भक्तिकाम्यया ततो विघ्नपदिः साक्षाद्दर्शनं मे ददौ मया स्तुदः सम्पूजितः सोऽपि ददौ स्वभक्रिमुत्तमाम् तदाधिगणपत्योऽहं जागत्सर्वैश्च वन्दितः भजस्व गणराज्यं तमतस्त्वं योगकाम्यया कण्व उवाच एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ तदः एकाक्षरं यथा न्यायमन्तर्धानं चकारः अहं तथा गणेशानां साधयित्वा विशेषतः शान्तिं प्राप्तस्थं तथापि भजाम्यनन्यचेतसा अतस्त्वमपि राजेन्द्रभज विघ्नपदिं सदा चतुर्धिव्रतसंयोक्तो ब्रह्मभूदो भविष्यसि तदयेकाक्षरं मन्त्रं ददौ तस्मै महामुनिः कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा तस्मिन्काले च दुर्धी सा शुक्लभाद्री समागता कृता तेन शुभक्रिया वै नगरस्थजनैः सह महीभृदा शुक्लां कृष्णाम् चतुर्थीं ये नाचरिष्यन्ति नित्यदा ते दण्ढय् पीडनीया वैतदः सर्वे भवन् जनाः व्रतकारिण यदस्मात् पुण्याद्वृष्टिर्बभूवः हृष्टपुष्टजनाः सर्वे तया जादा नृपात्मजा रोगादिदोषहीनास्ते भजं स्तं गणनायकं भरतस्म महाराजो भजत्सोऽनन्यचेतसा गणेशम् भक्तिसंयुक्तो गाणपत्यप्रियो भवत सपुत्रे राज्यमुग्रं तन्निक्षिप्य वनगो भवत अन्ते स्वानन्दगो भूत्वा भ्रमभूतो बभूवः क्रमेण भूमिसंस्थाये भवन्स्वानन्दगाजनाः चतुर्थी पुण्ययोगेन यथा योगपरायणाः स्पर्शेन भरतस्यैव जनः कीटादिका नृप पुण्यरूपा बभूवुस्ते धान्ते स्वानन्दगामिनः एतादृशेन भूपेन पुण्यशालि जना कृताः सर्वाधरायेन सर्वाधरायण चित्रिता पुण्यकारिणा भरतेन समो राजन् न ज्ञानेन स्वबलेनापि यशसा धर्मशालिना भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया चतुर्वर्गफलैर्युक्तो ब्रह्मभूय पदप्रदः भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यशृणोति चेत् पठेद्वा तस्य राजेन्द्र सर्वदं प्रभवेद्ध्रुवं भाद्रशुक्लचतुर्ध्यां वै शङ्करस्य हृदि प्रभुः प्रादुर्बभूव मध्याह्ने ध्यानजस सुदोभवद भवद तदादिसातिथिर्मुख्या बभूव जन्मधारिणी गणेशस्य न सन्देहो ब्रह्म भूयपदप्रदा सृष्ट्यादौ पञ्चदेवेशैः स्थापिता मूर्तिरुत्तमा मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ मयूरेशावतारो भाद्रपदेयो बभूवसः मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके तस्यां ये मृण्मयी मूर्तिं पूजयन्ति नरादयः देवाः शङ्करमुख्याश्च महोत्सवपरायणाः ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः अन्ते स्वानन्दका भूब्रह्मभूता भवन्ति च मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः उपोषणसमायुक्तैश्चतुर्ध्यां व्रतकारिभिः पञ्चम्यां पारणं कृत्वा द्विधैः सह महामदे मूर्तिं तां मृण्मही पूज्यां विसृज्य निनयेज्जलं चतुर्भ्यां मृण्मयी मूर्तिं भाद्रे ये नार्चयन्ति चेत् तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः पतितास्थे मदाशास्त्रे नारकाश्च भवन्त्यः इह विघ्नसमायुक्ता नानारोगप्रपीडिताः दारिद्र्यादिसमायुक्ता महापापा मदानृप चतुर्थ्यां सर्ववर्णस्थाैर्भाद्रे पूज्यो गजाननः मृण्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः अत्र ते वर्णयिष्येऽहम् इतिहासम् पुरातनं महाभाग चतुर्थी प्रतजमहद द्राविडे नगरे राजं चाण्डालः पापकृत कुष्ठरोगयुधः पूर्णः परस्त्री लम्पटो भवद चतुर्भ्यां भाद्रमासे सज्ज्वरयुक्तो बभूवः ज्वरस्य पीडयात्यन्तं पीडितो राजसत्तम अन्येन स जलेनापि हीनो भूद्दैवयो गतः पञ्चम्यां मरणे प्राप्ते विमानेन जगामः तस्याङ्गस्पर्शदो वायुर्यमलोके जगामः तेन स्पृष्टा नरास्तत्र नरकस्तासमन्ददः ते सर्वे यानका भूत्वा गदा स्वानन्दके पुरे दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूवः व्रतमज्ञानतश्चैवं फलप्रदमिदं मदं यथा विधिकृतं तत्र चित्रं किमप्यहो चतुर्भ्यामहिमायं कथयितुं न प्रशक्यदे पुरुषार्थाश्च चत्वार प्राप्यन्ते व्रतमात्रदः मुद्गल उवाच वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीद शृणु महाभाग तां कथां पावनीं प्रभो दशरथ उवाच चाण्डालो गणनाथस्य पुपूजसनमृन्मयीं मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूवः वसिष्ठ उवाच सम्यक्पृष्टं त्वया राजन् शृणु संशयनाशनं ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम् ण्डालस्य चतुर्ध्यास्तु ज्ञानम् नाभूत् दुरात्मनः पूजनम् च तथा तस्योल्लङ्घनम् न तदोभवद अतोऽयम् दोषहीनश्च स्वानन्दस्थो बभूवः पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावदः ेवं नाना जनाश्चेह भुक्त्वा विविधं सुखं अन्ते स्वानन्दकाराजन् बभूगोर्व्रतमात्रदः तत्रैकं कथितं प्रोक्तुं नालं वर्षायुधैरपि पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः